मुञ्जामि अयुसूक्ति शतञ्जीव शरदान पुण्याहतिावसानम् इवान् च ने उणकलरिं कूट्य मिश्रितमाणं दो रिक्स्टार्टिङ्ग् वित् आयुसूक् प्रर् to ward off all obstacles both spiritual and physical it also implores divine forces to bestow power both physical and spiritual to face life's challenges these rigs are very widely and frequently used in daily pujas rituals etc it also prays for regaining of health of a disease stricken person and bring him back to life the last two rigs starting with shatam jeeva ar chandan while sprinkling akshata the mixture of raw rice and paddy grains on persons undergoing purification rice punyaham as part of meli common rituals padabadham munjaami twaa haveesha jeevanaaya kam ajnata yakshmal uda raaje yakshmal graahi jagraha yadi वा एतल् एनं तस्या इन्द्राग्नीप्रमुक्तम् एनं मुञ्चामि त्वा हविषा जीवनाय कम् यक्षमाल उत राजयक्षमाल ग्राहि जग्राह यदि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 वा एतल् एनं तस्या इन्द्राग्नी प्रमुक्तम् एनं पदवढं मुञ्चामि त्वाहविषाजीवनायकम् अज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नीप्रमुक्तमेनं मुञ्चामि त्वा हविषा जीवनायकम् अज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिजग्राह यदि वैतदेनं तस्या इन्द्राग्नीप्रमुक्तमेनं मुञ्चामि त्वा हविषा जीवनायकम् अज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिजग्राह यदि वैतदेनं तस्या इन्द्राग्निप्रमुक्तमेनं संहितापठं मुञ्चामि त्वा हविषा जीवनायकमज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिर्यग्राह यदि वैतदेनं तस्या इन्द्राग्निप्रमुक्तमेनं मुञ्चामि त्वा हविषा जीवनायकमज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिर्यग्राह यदि वैतदेनं तस्या इन्द्राग्निप्रमुक्तमेनम् मुञ्चामि त्वा हविषा जीवनायकमज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिर्यग्राह यदि वैतदेनं तस्या इन्द्राग्निप्रमुक्तमेनम् मुञ्चामि त्वा हविषा जीवनायकमज्ञातय क्ष्मादुतराय क्ष्माल् ग्राहिर्जग्राह यदि वै ददेनं तस्या इन्द्राप्रमुक्तमेनम् मुञ्चामि त्वाह विषा जीवनायकमज्ञातय क्ष्मादुतरायक्ष्माल् ग्राहिर्जग्राह यदि वै तदेनं तस्या इन्द्रानिप्रमुक्तमेनम् मुञ्चामि त्वाह विषा जीवनायकमज्ञातय क्ष्मादुतरायक्ष्माल् ग्राहिर्जग्राह यदि वै तदेनं तस्या इन्द्राप्रमुक्तमेनम् पदपाठं यदि क्षितायु यदि वा परेता यदि मृत्योऽकं नीत एव आ आहरामि निरृते उपस्थाल अस्पार्षम् एनं शतशारदाय यदि क्षितायु यदि वा परेत यदि मृत्योऽकम् नीत एव आ, आहरामि निरृते उपस्थाल, अस्पार्शम् एनं शतशारदाय यदि क्षितायु यदि वा परेत यदि मृत्योऽकं नीत एव तं आहरामि निरृते उपस्थाल् अस्पार्षम् एनं शतशारदाय पादवढं यदि क्षितायुर्यदि वा परेत यदि मृत्योरन्तिकन्ीत एव तमाहरामि निरृतेरुपस्थाल् अस्पार्षमेनं शतशारदाय यदिक्षितायुर्यदि वा परेत यदि, यदि मृत्योरन्तिकन्नीत एव तमाहरामिनिरुतेरुपस्थाल् अस्पार्षमेनं शतशारदाय यदिक्षितायुर्यदि वा परेत यदि मृत्योरन्तिकं नीत एव तमाहरामिनिरुतेरुपस्थाल् अस्पार्षमेनं शतशारदाय संहितापाठं यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव तमारा निते शतशारदा यदि क्षितायुदि व् परेतो यदि मृत्योरिगन्नीत तमाहरा निरृतेपस्थमे शतशारदा यदीक्षितायुर्यदि वा परेतो यदि मृत्योरन्तिगं नीद एव तमाहरामि निरृतेरुपस्थादस्पार्षमेनं शतशारदाय यदीक्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एवा तमाहरामिनिहृदये रूपस्थादस्पार्षमेनंशतशारदाया यदीक्षितायुर्यदि वा परेतो यदि मृत्यो रन्ति गन्ता एवा तमाहरामिनिरुदये रूपस् था दशपर्षमेनं शतशारदाया यदीक्षितायुर्यदि परे यदी वा परेतो यदि मृत्यो रन्ति गन्निद एवा तमाहरामिनिरृदये रूपस्थादस्प पारुषमेनौ शतशारदाया पदपाठं सहस्राक्षेण शतशारदेन शतायुषा हविषा आ अहारुषम् एनं शतं यथा इमं शरद नयाति इन्द्र विश्वस्य दुरितस्य पारं सहस्राक्षेण शतशारदेन शतायुषा हविषा आहारुषम् एनं शतं यथा इमं शरद नयाति इन्द्र विश्वस्य दुरिदस्य पारम, सहस्राक्षेण शतशारदेन शतायुषा हविषा आहारुषम् एनं शतं यथा इमं शरद नयादि इन्द्रविश्वस्य दुरितस्य पारम, पादपढम् सहस्राक्षेण शतशारदेन शतायुषा हविषाहारुषमेनं शतं यथेमं शरदो नयाति इन्द्रो विश्वस्य दुरितस्य पारं सहस्राक्षेणशतशारदेन शतायुषा हविषाहारुषमेनम् शतं यथेमं शरदो नयाति इन्द्रो विश्वस्य दुरितस्य पारं सहस्राक्षेण शतशारदेन शतायुषा हविषाहारुषमेनं शरदो नयाति इन्द्रो विश्वस्य दुरितस्य पारं संहितापाठम् सहस्राक्षेण शतशारदेन शतायुषा हविषाहारुषमेनं शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् सहस्राक्षेण शतशारदेन शतायुषा हविषाहारुषमेनम् शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् सहस्राक्षेण शतशारदेन शतायुषा हविषाहारुषमेन शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारं सहस्राक् क्षेणशतशारदेन शतायुषाः विषाहारिषमेनम् शतं यथेमं शरदो न याति इन्द्रो विश्वस्य दुरितस्य पारम् सहस्राक् क्षेणशतशारदेन शातशारदेन विषाहारिषमेनम् शतं यथेमं शरदो न याति इन्द्रो विश्वस्य दुरितस्य पारम् सहस्रा शात क्षेण शतशारदेन शतायुषा विषाह शेम शरदो विश्वस्य विश्व पारं। पार पदपाठम जीव शरद वर्धम शतम हेम शतम उ वसंद शतम सविता बृहस्पति शतायुषा हविषा इमं पुन दुह शतम जीव शरद वर्धम शतम हेम शतम उ वसंद शत इंद्राग्नी सविता बृहस्पति शतायुषा हविषा इमं पुन दुह शत जीव शरद हेमन्दान शत हेमता उसन्ता इंद्राग्नी सविता बृहस्पति शतायुषा हविषा, इमं, दु, हविषाइ इमु पादपाठम शतवशरदो वर्धम शत हेमता वसन्ता शतमींद्राग्नी सविता बृहस्पति शतायुषा हविषेम पुनर्दुह शतजीव शरदो वर्धमानत हेमता वसन्ता शतम, हे छतम शतम सविता बृहस्पति शतायुषा हविषेम पुनर्दु शतजीवशरदो वर्धमन शत हेम्छतसन्ता शतमींद्राग्नी सविता बृहस्पति शतायुषा हविषेम पुनर्दु संहिता पाठ शतवशरदो वर्धम शत हेम शतमुसंता शतराग्नी सविता बृहस्पतिशतायुषा हाषेम पुनर्दु शतं जीव शरदो वर्धमानशतं हेमन्दाञ्छतमुसन्तान् शतमिन्द्राग्नि सविता बृहस्पतिश्शतायुषा हविषेमं पुनर्दुः शतं जीव शरदो वर्धमानशतं हेमन्दाञ्छतमुसन्तान् शतमिन्द्राग्नि सविता बृह॒स्पतिश्शतायुषा हविषेमं पुनर्दुः शतं जीव शरदो वर्धमानशतं हेमन्दातमु वसन्दान् शतमिन्द्राग्नि सविता बृहस् पतिः शतायुषाः विषेमं पुनर्दु शतं पतिः शतायुषाः विषेमं पुनर्दु शतं जीव शरदो वर्धमानशतं हेमन्दातमु वसन्दान् शतमिन्द्राग्निसविता बृहस्प पदिषदायुषाः विषमम्बुनर्दू पदपाठम् आ अहारुषं त्वा अविदं त्वा पुनः आ अगः पुनर्नव सर्वाङ्गं ते चक्षुः सर्वं आयुः च ते अविदम् आ अहर्षं त्वा अविदं त्वा पुनः आ अगः पुनर्नव सर्वाङ्गं ते चक्षुः सर्पम् आयुः च ते अविदम् आ अहर्षं त्वा अविदं त्वा पुन आ अगाः पुनर्नव सर्वाङ्गं ते चक्षु, सर्वम् आयु च ते अविदं पादपाठम् आहारिषन्त्वाविदन्त्वा पुनरागाः पुनर्नव चक्षु सर्वाङ्गसर्वन्दे चक्षुः सर्वमायुश्चतेविदम् आहारिषन्त्वाविदन्त्वा पुनरागाः पुनर्नव सर्वाङ्गसर्पन्दे चक्षुः सर्वमायुश्चतेविदम् आहारिषन्त्वाविदन्त्वा पुनरागा पुनर्नव सर्वाङ्गन्दे चक्षुः सर्वमायुश्चतेविदं संहितापठम् आहारिषन्द्वाविदन्द्वा पुनरागाः पुनर्नव चक्षु पुनरागा, चक्षुः सर्वमायुश्चतेविदम् पुनरागा सर्पाङ्गन्दे चक्षुः सर्वमायुश्चतेव सर्पाङ्गन्दे चक्षुःसर्वमायुश्चतेविदम् आहषं द्वाविदं द्वापुनराग पुनर्मवा सर्पाङ्गसर्पं ते चक्षुःसर्पमायुश्च तेविदम् आहाषं त्वाविदं द्वापुनराग पुनर्मवा सर्पाङ्ग सर्पं ते चक्षुः सर्पमायुश्च ते विदम् आहारुषं त्वाविदं त्वा पुनराग पुनर्मवा सर्पाङ्गसर्पा वं ते चाक्षुः विदम्